गङ्गातरङ्गमणीयजटा कला गौरी निरन्तरविभूषित वामभा नारायणप्रियमनङ्गमदावहाराणसी पुरपति भजविश्वनाथ चामगोचरमनेकगुणस्वरूपम् पागीशविष्णुसुरसेवितपादपीठम् वामेन विग्रहवरेण कदत्रवन्तम् भूताधिपम् भुजगभूषणभूषिताङ्गम् व्याघ्राजिनाम्बरधरम् जटिलम् त्रिनेत्रम् पाशाङ्कुशाभयवरप्रदशूलपाणि वाराणसी पुरपतिम् भय गीताशुशोभितकिरीट विराजमानम् काले क्षणानलविशोषित पञ्चबाणम् नागाधिपारचितभासुरकर्णपूरम् वाराणसी पुरपतिम् भज पञ्चाननम् दुरितमत्तमतङ्गजाना नाकान्तकम् धनुज पुङ्गवपन्नदाना दावाननम् मरणशोकजराटवीना वाराणसी पुरपति भज तेजोमयम् सगुणनिर्गुणमद्वितीयम् आनन्दकन्दमपराजितमप्रमेय नागात्मकम् सकल निष्कलमात्मरूपम् वाराणसि पुरपति भज विश्वनाथम् गादिदोषरहितम् स्वजनानुरागम् वैराग्य शान्तिनिलयम् गिरिजा सहायम् माधुर्य धैर्य सुभगम् गरलाभिरामम् वाराणसी पुरपतिम् भज विश्वनाथम् आशाम् विहाय परिहृत्य परस्य निन्दा पापे रतिम् च सुनिवार्य मनः समाधौ आदाय वाराणसी पुरपतिम् भज विश्वनाथम् राणसी पुरपतेस्तवदम् शिवस्य व्याख्यातमष्टकमिदम् पठते मनुष्य विद्या श्रियम् विपुलसौख्यमनन्तकीर्ति सम्प्राप्य विश्वनाथाष्टकमिदम् यः परे शिवलोकमवाप्नोति शिवेन सह विश्वनाथाष्टकमिदम् यः परे शिवलोकमवाप्नोति शिवेन सह